नमा इरण्याय रेण्याय नमो नम इरण्याय च चेरण्याय नमो नम इरण्याय च इरण्याय तचे रेण्याय इरण्याय त प्रपत्याय प्रपत्याय च रेण्याय इरण्याय त प्रपत्याय सप्रपथ्याय प्रपथ्याय च प्रपथ्याय च प्रपथ्याय च प्रपथ्याय च प्रपथ्याय च प्रपथ्याय प्रपथ्याय च नमो नमश्च प्रपथ्याय प्रपथ्याय च नमः प्रपथ्यायेति प्रपथ्याय tena <speaking> mo namas ta namah ekam shilaya kegam shilaya namas ta namah ekam shilaya namah ekam shilaya kegam shilaya namo namah ekam shilaya tat kegam shilaya namo namah ekam shilaya tat केगं शिलाय ततकेगं शिलाय केगं शिलाय क्षयनाय क्षयनाय ततकेगं शिलाय केगं शिलाय क्षयनाय क्षयनाय क्षयनाय ततक्षयनाय ततक्षयनाय ततक्षयनाय ततक्षयनाय ततक्षयनाय तत क्षयणायत चक्षयणायक्षयणायत नमो नमश्चक्षयणायक्षयणायत नमः च नमो नमस्तत नमः कपर्दिने कपर्दिने नमस्तत नमः कपर्दिने नमः कपर्दिने कपर्दिने नमो नमः कपर्दिने चचकपर्दिने नमो नमः कपर्दिने च पर्दिने चचकपर्दिने कपर्दिने च पुलस्तये पुलस्तये च क पर्दिने कपर्दिने च पुलस्तये च पुलस्तये पुलस्तयेत च पुलस्तयेत पुलस्तयेत पुलस्तयेत पुलस्तयेत पुलस्तये पुलस्तये च नमो नमश्च पुलस्तये पुलस्तये च नमः च नमो नमश्च नमो गोष्ठ्याय गोष्ठ्याय नमश्च नमो गोष्ठ्याय नमो गोष्ठ्याय गोष्ठ्याय नमो नमो गोष्ठ्यायतथ गोष्ठ्याय नमो नमो गोष्ठ्यायत गोष्ठ्यायच गोष्ठ्याय गोष्ठ्यायथ गृह्याय गृह्यायथ गोष्ठ्याय गोष्ठ्यायथ गृह्याय गोष्ठ्यायेति गो स्थाय यचगृह्यायतचग्रह्यायचगृह्याय च गृह्यायचग्रह्यायगृह्याय च नमो ण नमश्चगृह्यायगृह्याय च नमः नमो नमश्च नमस्तल्प्यायतल्प्याय नमश्च नमस्तल्प्याय नमस्तल्प्यायतल्प्याय ]Hey. नमो नमस्तल्प्यायतल्प्याय नमो नमस्तल्प्यायच तल्प्यायचतल्प्यायतल्प्यायथगे ख्यायगे ख्यायचतल्प्यायतल्प्यायचगे ख्याय छगेख्यायगे ख्यायचगे ख्यायचगे ख्यायचगे ख्यायच गेख्यायतचगेख्या जगेख्यायत नमो नमश्चगेख्या जगेख्यायत नमः च नमो नमश्च नमः काट्याय काट्याय नमश्च नमः काट्याय नमः काट्याय काट्याय नमो नमः काट्यायतच काट्याय नमो नमः काट्यायत काट्यायत काट्याय काट्यायत गरेष्ठाय ग्वरेष्ठायत काट्याय काट्यायत गरेष्ठाय ग्वरेष्ठाय गरेष्ठायतत ग्वरेष्ठायतत ग्वरेष्ठायतत ग्वरेष्ठायत गह्वरेष्ठाय तत गह्वरेष्ठाय गह्वरेष्ठाय च नमो णमस्तग्वरेष्ठाय गह्वरेष्ठाय च नमः गह्वरेष्ठायेति गह्वरे स्थाय च नमो नमस्तत नमो आह्रदय्याय ह्रदय्याय नमस्त नमो आह्रदय्याय नमो क्रदय्याय क्रदय्याय नमो नमो क्रदय्याय चक्रदय्याय नमो नमो क्रदय्याय च ह्रदययाय चक्रदय्यायक्रदय्याय च निभेष्ट्याय निभेशाय चक्रदय्यायक्रदय्याय च निभेशाय नियच नियत निवेष्ट्यायत निभेष्प्यायनि भेष्प्यायत नमो नमस्तनि भेष्प्यायनि भेष्प्यायत नमः निवेष्ट्यायेतिनि वेष्ट्याय jana mo namascha jana mah pagum svyay apagum svyay namascha jana mah pagum svyay namah pagum svyay apagum svyay namo namah pagum svyay chacha pagum svyay namo namav pagum svyay cha पागुम् सव्यायत च पागुम् सव्याय पागुम् सव्यायत रजस्याय रजस्यायत पागुम् सव्याय पागुम् सव्यायत रजस्याय तरजस्याय रजस्यायत तरजस्यायत च रजस्यायत तरजस्याय च व्रजस्यायजत रजस्याय रजस्याय च नमो नमश्च रजस्याय रजस्याय च नमः च णमो नमश्च नमः शुष्क्यायशुस्क्याय नमश्च नमः शुष्क्याय नमः शुष्क्यायशुष्क्याय नमो नमः शुष्क्यायत च शुष्क्याय नमो नमः शुष्क्याय च suskyaya tas suskyaya suskyaya tas harityaya harityaya tas suskyaya suskyaya tas harityaya charityaya harityaya tas harityaya tas harityaya tas harityaya tas harityaya tas हरित्याय च हरित्याय हरित्याय च नमो नमश्च हरित्याय हरित्याय च नमः च नमो नमश्च च नमो लोप्यायलोप्याय नमश्च च नमो लोप्याय नमो लोप्यायलोप्याय नमो नमो लोप्याय च लोप्याय नमो नमो लोप्याय च lobbayaata caloppayaa yaloppayaa caloppayaa yaloppayaa caloppayaa yaloppayaa caloppayaa caloppayaa yaloppayaa caloppayaa caloppayaa caloppayaa caloppayaa caloppayaa caloppayaa उलप्याय चोलप्यायोलप्यायत नमो नमश्चोलप्यायोलप्यायत नमः च नमो नमस्तत नम ऊर्व्यायोर्व्याय नमस्तत नमऊर्व्याय नमऊर्व्यायो्याय नमो नमऊर्व्याय चोर्व्याय नमो नम उर्व्यायच उर्व्यायच चोरव्यायोरव्यायच सुरम्याय सुरम्यायचोरव्यायोरव्यायच सुरम्याय तसुरम्याय सुरम्यायचच सुरम्यायचच सुरम्यायचच सुरम्यायच surmyaaya tata surmyaaya surmyaaya surmyaaya namo namascha surmyaaya surmyaaya namaha ta namo namascha namah parnyaaya parnyaaya namashta namah parnyaaya नमः पर्ण्याय पर्ण्याय नमो नमः पर्ण्याय च पर्ण्याय नमो णमः पर्ण्याय च पर्ण्याय च पर्ण्याय पर्ण्याय च पर्णसद्याय पर्णसद्याय च पर्ण्याय पर्ण्याय च पर्णसद्याय पर्णसद्याय पर्णसद्यायत च पर्णसद्याय च पर्णसद्याय च पर्णसद्याय च पर्णसद्यायत च पर्णसद्याय पर्णसद्याय च नमो नमश्च पर्णसद्याय पर्णसद्याय च नमः पर्णसद्यायेति पर्ण सद्याय च नमो नमस्तनमोपगुरमाणायापगुरमाणाय नमश्च नमोपगुरमाणाय नमोऽपगुरमाणायापगुरमाणायनमो नमोऽपगुरमाणाय चापगुरमाणायनमो नमोऽपगुरमाणाय च अपगुरमाणाय च चापगुरमाणायापगुरमाणाय चाभिघ्नते भिघ्नते चापगुरमाणायापगुरमाणाय चाभिघ्नते अपगुरमाणायेत्यप गुरमाणाय स्वाभिघ्नते भिघ्नते च च च च च च च च च च चाभिघ्नते च च च च च च च च च च नमो नमश्च च नम आक्षिधत आक्षिधते नमश्च च नम आक्षिधते नम आक्षिधत आक्षिधते नमो नम आक्षिधते चाक्षिधते नमो नम आक्षिधते च आक्षिदते च चाक्षिधत आखिदते च प्रक्षिधते प्रक्षिधते च आखिदत आखिदते च प्रक्षिधते आखिदत इत्याखिदते च प्रक्षिदते प्रक्षिधते च च च प्रक्षिधते च प्रक्षिदते च च च च च च च च च च च प्रक्षिधते प्रक्षिधते च नमो नमश्च प्रक्षिधते प्रक्षिधते च नमः प्रक्षिधत इति प्रक्षिदते च नमो नमश्च नमो वोभो च नमो वः नमो वोभो नमो नमो वक्किरिकेभ्यः किरिकेभ्यो भो नमो नमो वक्किरिकेभ्यः वक्किरिकेभ्यः किरिकेभ्यो वो वक्किरिकेभ्यो देवानान्देवानाङ्किरिकेभ्यो वो वक्किरिकेभ्यो देवाना देज़ाना, देज़ाना भ्यो देवाना देवानाङ्किरिकेभ्यः किरिकेभ्यो देवानागुं हृदयेभ्यो किर हृदयेभ्यो किर देवानान्किरिकेभ्यः किरिकेभ्यो देवानागुं हृदयेभ्यः देवानागुं हृदयेभ्यो हृदयेभ्यो देवानादेवानागुं हृदयेभ्यो नमो नमो हृदयेभ्यो देवानान्देवानागुं हृदयेभ्यो नमः हृदयेभ्यो नमो नमो हृदयेभ्यो हृदयेभ्यो नमो वि ीणकेभ्यो विक्षिणकेभ्यो नमो हृदयेभ्यो हृदयेभ्यो नमो विक्षीणकेभ्यः नमो वक्षिणकेभ्यो वक्षिणकेभ्यो नमो नमो वीक्षिर्णकेभ्यो नमो नमो वीक्षिर्णकेभ्यो नमो नमो वीक्षिणकेभ्यो नमः विक्षीणकेभ्यो नमो नमो विक्षीणकेभ्यो वीक्षीणकेभ्यो नमो विचिन्वत्केभ्यो विचिन्वत्केभ्यो नमो विक्षीणकेभ्यो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यः विक्षीणकेभ्य इति वि ीनकेभ्यः नमो विचिन्वत्केभ्यो विचिन्वत्केभ्यो नमो नमो विजिन्वत्केभ्यो नमो नमो विजिन्वत्केभ्यो नमो नमो विचिन्वत्केभ्यो नमः विजिन्वत्केभ्यो नमो नमो विजिन्वत्केभ्यो विजिन्वत्केभ्यो नम आनिर्हतेभ्य आनिर्हतेभ्यो नमो विजिन्वत्केभ्यो विजिन्वत्केभ्यो नम आनिर्हतेभ्यः विजिन्वत्केभ्य इति विचिन्वत्केभ्यः नम आनिर्हतेभ्य आनिर्हतेभ्यो नमो नम आनिर्हतेभ्यो नमो नम आनिर्हतेभ्यो नमो नम आनिर्हतेभ्यो नमः अनिर्हतेभ्यो नमो नम आनिर्हतेभ्य आनिर्हतेभ्यो नम आमीवत्केभ्य आमी वत्क्यो नम आहते आहते नम आमी वत्भ्य अभ्य इदि हतेभ्य नम आमी वकेभ्य आमी वत्क्यो नमो नम आमी वत्के मीवत्केभ्य इत्यात्केभ्यः मीवत नम इरिण्यायेरिण्याय नमो नम इ्याय च चेरिण्य